ना सुखयन प्रा न कमला शीतवाता तव मरीचयोदशपवती गोभिभासे महीणमी लोकानाक प्रवर्त तव यद्युदयो न स्यादम् धम् जगदिदम् भवेत् न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः आधानपशुबन्धेष्टिमन्त्रयज्ञतपः क्रियाः त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविषाङ्गणैः यद हर्ब्रह्मणः प्रोक्तम् सहस्रयुगसम्मितम् तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः मनूनाम् मनुपुत्राणाम् जगतो मानवस्य च मन्वन्तराणाम् सर्वेषामीश्वराणाम् त्वमीश्वरः संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः संवर्तकाग्निस्त्रैलोक्यम् भस्मीकृत्यावतिष्ठते त्वद्दीधितिः समुत्पन्नानावर्णा महाघनाः सैरावताः साशनयः कुर्वन्त्याभूतसम्प्लवम् कृत्वा द्वादशधात्मानन् द्वादशादित्यताङ्गतः संहृत्यैकार्णवम् सर्वम् त्वम् शोषयसि रश्मिभिः त्वामिन्द्रमाहुस्त्वम् रुद्रस्त्वम् विष्णुस्त्वम् प्रजापतिः त्वमग्निस्त्वम् मनःसूक्ष्मम् प्रभुस्त्वम् ब्रह्म शाश्वतम्